श्रीमद्भागवतं महापुराणं महा दसं स्कन्ध षोडशोऽध्यायः ता कृष्णमातरमपत्यमनुप्रवेष्टां तुल्यव्यथा समनुगृह्य शु च सृवन्त्य कृष्णप्राणान्निर्विशन्तो नन्दादीनवीक्षितं फलं प्रत्यसेधत् स भगवान् रामकृष्णानुभाववित् इत्त्वं स गोकुलं मनन्य गतिं निरीक्ष्य षस्तीकुमारमतिदुःखितमात्महेतो आज्ञायमर्तपदवीमनुवर्तमान स्थित्वा मुहूर्तमुदतिष्ठतुरङ्गबन्धान् तत्प्रथ्यमानवपुषां दसितात्मभोगं त्यक्तोन्नमय्य कुपितशफणान् भुजङ्ग तस्थौ सदच्छवं सनध्रविषाम्बरीष तस् तब्धे क्षणो मुरुकमुखो हरिमीक्षमाण तं जीवयां द्विसुखया परिलीलिहानं द्वे सिङ्किलीशति करालविषाग्निदृष्टिम् क्रीडन्नमुं परिसार यथा खगेन्द्रो दभ्रामसोऽप्यवसरं प्रसमीक्षमाण एवं परिभ्रमहतौजसमुन्नतांसम् आनम्य तत्पृथुशिरस्वंधिरूढ आद्य तन्मुर्धरत्ननिकरं स्पर्शात् ताम्र पादाम्बुजोऽखिलकलाकलाद्गुरुन नर्त तं नर्तुमुद्यतमवेक्ष तदा तदीय गन्धर्वसिद्धसुरचारणदेव वध्वा प्रत्यामृदङ्गपणवानकवाद्यगीता पुष्पोपहारनुतिभिः सहसोपसेदो यद्यच्छिरो नमतेऽसतैकशिष्ण धरो गृपाते क्षेनायुषो भ्रमत उल्बणमाशतोषिं नस्तो वमन् परमकस्मलमापनाग तस्याखिभिर्गरलमुद्वमत शिरस्सु यद्यत्समुन्नमते निष्वसतो नृषोचैः नित्यं पदानुनयन्दमिं दमियाम्बभूव पुष्पैः प्रपूजितैवेह पुमान्पुराण चत्र तच्चताण्डवरुग्ण फणातपत्रो रक्तं मुखैरुपमन्दिपभग्नगात्रः स्मृत्वाचराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम कृष्णस्य गर्भञ्जगतोऽतिभरावशन्नं पाष्णीप्रहारपरिरुग्ण फणातपत्रम् दृष्ट्वा हिमाद्यमुपसेदुर्मस्य पत्न्या आर्त्या सुलथद्वसनभूषणकेशबन्धा तास्तं सुविघ्नमनसोऽथ पुरस्कृतार्भाः तायं निधाय भूतपतिं प्रणेमो साव्याकृताञ्जलिपुटा समलस्य शरणं प्रपन्ना नागपत्न्यौचः न्यायो हि दण्डकृतिकिल्विषयेऽस्मिं तवावतार खलु निग्रहाय रिपुसुतानामपि तुल्यदृष्टे धत्ते ददं दमं फलमेवानुशंसन् अनुग्रहोऽयं भवतः कृतोहिनो दण्डो सतां ते खलु कल्मषापः यद्दण्डसुकत्वमुस्य देहि न क्रोधोऽपि तेऽनुग्रह एव सम्मतः तपसु तप्तं कुमलेन पर्वं निरस्तमानेन च मानदेन धर्मोऽथवा सर्वजनानुकम्पया यतो भवातु सर्वजीव कस्यानुभावो च देव विद्महे तवाङ्घ्रिरेणो स्परसाधिकार यद्वाञ्छयासि ललनाचरतपो विहाय कामान् सुचनं धृतव्रताम् न नाक नाकपृष्ठं न च सार्वभौमं न पारमेष्ठं न रसाधिपत्यं न योगसिद्धिर्पुनर्भवं वा वाञ्छन्ति यत्पादरजप्रपन्ना तदेश नाथायदुरापन्मन्यैस्तमोजनी क्रोधवशोऽप्यहेश संसारचक्रे भ्रमत शरीरिणो यदीक्षतश्चाद् विभुव समक्ष